यदा श्रौषम् न वि दुर्मामकास्तान् प्रच्छन्नरूपान् विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् कीचकानाम् वरिष्ठम् निशूदितम् भ्रातृशतेन सार्धम् भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् मामकानाम् वरिष्ठान् धनञ्जयेनैकरथेन भग्नान् विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् सत्कृताम् मत्स्यराज्ञा सुताम् दत्तामुत्तरामर्जुनाय ताम् चार्जुनः प्रत्यगृह्णात् सुतार्थे तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात् प्रच्युतस्य अक्षौहिणीः सप्त युधिष्ठिरस्य तदा विजयाय सञ्जय यदा श्रौषम् माधवम् वासुदेवम् सर्वात्मना पाण्डवार्थे निविष्टम् यस्येमाम् गाम् विक्रममेकमाहुस्तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् नर तौ कृष्णार्जुनौ वदतो नारदस्य अहम् दृष्टा ब्रह्म लोके च सम्यक् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् लोकहिताय कृष्णम् शमार्थिनमुपयातम् कुरूणाम् शमम् कुर्वाणमकृतार्थम् च यातम् तदा नाशंसे विजयाय सञ्जय यदा कृताम् निग्रहे केशवस्य तञ्चात्मानम् बहुधा दर्शयानम् तदा नाशंसे विजयाय यदाश्रौषम् वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् आर्ताम् पृथाम् सान्त्विताम् केशवेन तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् मन्त्रिणम् वासुदेवम् तथा भीष्मम् शान्तनवम् च तेषाम् भारद्वाजम् चाशिषोऽ ब्रुवाणम् तदा नाशंसे विजयाय सञ्जय कर्ण उवाच भीष्मम् नाहम् योत्स्ये युध्यमाने त्वयीति हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् वासुदेवार्जुनौ तौ तदा धनुर्गाण्डी मम समागतानि तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै कृष्णम् लोकान् दर्शयानम् शरीरे तदानाशं से विजयाय सञ्जय यदा श्रौषम् भीष्म मित्र कर्शनम् निघ्नन्तमाजावयुतम् रथानाम् नैषाम् कश्चिद् बध्यते ख्यातरूपस्तदा नाशंसे विजयाय सञ्जय धार्मिकेण तच्चाकार्षः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् भीष्ममत्यन्त शूरम् हतम् यदा श्रौषम् वृद्धं वीरं वीरम् साधितम् भीष्मं भीष्मम् कृत्वा सोमकानल्प सेषांस्तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् शान्तनवेशयाने पानीयार्थे चोदितेनार्जुनेन भूमिम् भित्त्वा तर्पितम् तत्र भीष्मम् तदा विजयाय सञ्जय यदा वायुश्चन्द्र सूर्यौ जयाय नित्यम् चास्माश्वापदा भीषयन्ति तदा विजयाय संजया। यदा द्रोणो विविधान् अस्त्र मार्गान् निदर्शयन् समरे चित्रयोधी न पाण्डवान् श्रेष्ठतरान् निहन्ति तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् चास्मदीयान् महारथान् व्यवस्थितान् अर्जुनस्यान्तकाय संसप्तकान् निहतान् अर्जुनेन तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् गुप्तम् भित्त्वा सौभद्रम् वीरमेकम् प्रविष्टं तदा नाशंसे विजयाय सञ्जय यदाभिमन्युम् परिवार्य बालम् सर्वे हत्वा हृष्टरूपा बभूवुः महारथाः पार्थमशक्नुवन्तस्तदा मूढान् क्रोशतोधार्तराष्ट्रान् क्रोधादुक्तम् सैन्धवे चार्जुनेन तदा नाशंसे विजयाय सञ्जय यदा तद्वधायार्जुनेन सत्याम् तीर्णाम् शत्रु मध्ये च तेन तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् श्रान्त हये धनञ्जये मुक्त्वा हयान् पाययित्वोपवृत्तान् पुनर्युक्त्वा वासुदेवम् प्रयातम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् वाहनेष्वक्षमेषु रथोपस्थेतिष्ठता पाण्डवेन सर्वान् योधान् वारितान् अर्जुनेन तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् नागबलैः सुदुःसहम् द्रोणानीकम् ययुधानम् यातम् वार्ष्णेयम् यत्र तौ कृष्ण पार्थौ तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् कर्णमासाद्य धनुष्कोट्या तु कर्णेन वीरम् तदा नाशंसे विजयाय कृपश्च कर्णो द्रोणिर्मद्रराजश्च शूरः अमर्शयन् सैन्धवम् वध्यमानम् तदा यदा श्रौषम् देवराजेन दत्ताम् दिव्याम् शक्तिम् व्यंसिताम् माधवेन घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् कर्णघटोत्कचाभ्याम् युद्धे मुक्ताम् सूत पुत्रेण शक्तिम् ययावध्यः समरे सव्यसाची तदा नाशंसे विजयाय सञ्जय